आकाशवाणी सम्प्रति वार्ता श्र प्रथमं मुख्यवार्ता वित्तमन्त्री निर्मला सीतारामन् देशे उपभोक्तणाम् आवश्यकताभिवृद्धये त्रिसप्तति सहस्र कोटि रूप्यकाणां महती योजना समुद्घोषितवती प्रतिरक्षामन्त्री राजनाथ सिंह देशस्य विभिन्नेषु क्षेत्रेष् सीमा मार्ग संघटन द्वारा विनिर्मितान् चतुश्चत्वारिंशत् सेतून् गतदिवसे दृश्य श्रव्य प्रणालिकया समुद्घाटितवान देशे कोविड ऊनविंशति महामारीतः स्वस्थीभूतानां जनानां प्रतिशतता प्रवर्ध्य सम्प्रति षडशीति दशमलव त्रि षट् परिमिता संवृत्ता सूच्यते विगत सेप्टेम्बर मासस्य चतुर्विंशे दिनांके लीबिया देशादपहृता सप्त भारतीया गतदिवसे विमोचिता सीतारमण वित्तमन्त्री निर्मला सीतारामन् देशे उपभोक्तृणाम् आवश्यकतानाम् अभिवृद्धये त्रिसप्तति सहस्र कोटि रूप्यकाणां महती सन्दर्भेऽस्मिन् गतदिवसे नवदिल्ल्यां वार्ताहरान् सम्बोधयन्ती सा केषाञ्चिन् नूतन विवरणं प्रस्तुतवती श्रीमती सीतारामन स्पष्टमकरोत् यदेतदन्तर्गतं दंतर्गतं योजनायां शासकीय कार्मिकै एल्टीसी इति सावकाश निश्ल्क प्रवर्तमान वर्ष चतुष्टयावधौ अवकाशस्थाने रूप्यकराशय पात्रतानुसारं यात्रा भाटकं च प्राप्स्यन्ते यद्यपि एतद्योजनाया लाभार्थिभि प्राप्तराशीनां त्रिग्णितै रूप्यकराशिभि क्रीतानां वस्तूनां व्ययविवरणं कार्यालये प्रस्तोतव्यं भविष्यति एतदतिरिच्य शासकीय कर्मचारिण उत्सवेभ्य पूर्व आयकरमुक्तानां दश सहस्र रूप्यकाणाम् अग्रिम राशिमपि ग्रहीतुं पारयिष्यन्ति राजनाथ सिंह प्रतिरक्षामन्त्री राजनाथसिंह देशस्य विभिन्नेष् क्षेत्रेष् सीमार्ग सीमा संघटन द्वारा विनिर्मितान् चतुश्चत्वारिशत् सेत्न् गतदिवसे दृश्य श्रव्य प्रणालिकया समुद्घाटितवान् इमे सेतव लद्दाख प्रदेशे सिक्किमे हिमाचलप्रदेशे उत्तराखण्डे पंजाबे जम्मूकश्मीर च विरचिता विद्यन्ते राजनाथ सेवा अवसरेऽस्मिन् राजनाथसिंह अब्रवीत् यत् स्वल्पेनैव कालेन विनिर्मिता एते सेतव न केवलं सामरिक दृशा अपित् सम्बद्धानां लद्दखादि क्षेत्राणां सामाजिक आर्थिक विकास दृशापि परमं महत्वमादधति देशे कोविड ऊनविंशति महामारीत स्वस्थीभूतानां जनानां प्रतिशतता प्रवर्ध्य षडशी दशमलव त्रिष् पर्मता संवृत्ता सूच्यता विगतासु चुशति हरासुक सहस रोगिण स्वस्थता स्वास्थ्य मंत्रालं सद्यावधि भारत साधि लक्ष्य कॉरोनात विमुक्ता विगत सेप्टेम्बर मसल चतश दिनाक लीबिया तहृता सप्त गतदिवस विमुक्ता विदेशमन्त्रालयात् विदर्गमितायां विज्ञप्तौ व्याहृतं यत् सर्वेडपि विमोचिता अस्मन्नागरिका सम्प्रति स्वस्था ब्रिगा समवाय परिसरे अवतिष्ठन्ता नोदीदितं यदीं भारतं प्रति आनयनार्थम् आवश्यक प्रक्रिया यथाशीघ्रं प्रपूरयित् प्रयासोऽष्ठीयन्ते तेनैतेषाम् अपहृतकानां विमुक्तौ साहाय्यानुष्ठानार्थं लीबिया प्रशासनं तत्रत्यमादिवासि वृन्दं च धन्यवादशतै सभाजितम् अन्ते मुख्यवार्ताः पुनरेकवारं वित्तमन्त्री निर्मला सीतारामन् देशे उपभोक्तृणाम् आवश्यकताभिवृद्धये महती योजना समुद्घोषितवती प्रतिरक्षामन्त्री देशस्य विभिन्नेषु क्षेत्रेष् चत्श्चत्वारिशत् सेत् उद्घाटितवान् इति वार्ताः